दृष्ट्वा निवारितान् देवान् माधवेनार्जुनेनच च आश्चर्यमगमंस्तत्र मुनयो नभसि स्थिताः शक्रश्चापि परम प्रीतो भूयश्चैतावयोधयत् ततोष्मवर्षं सुमहद् व्यसृजत्पाकशासनः भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः तच्छरैरर्जुनो वर्षं प्रतिजघ्नेत्यमर्षितः विफलम् क्रियमाणम् तत् समवेक्ष्य शतक्रतुः भूयः संवर्धयामासतद्वर्षम् पाकशासनः सौक्ष्मवर्षम् महावेगैरिषुभिः पाकशासनिः विलयं गमयामास हर्षयन् पितरं तथा तत उत्पाट्यपाणिभ्यां मन्दराच्छिखरं महत। सद्रुमं व्यसृज्छक्रो जिघांसुः पाण्डुनन्दनं ततोऽर्जुनो वेगवद्भिर्ज्वलिताग्रैरजिह्मगैः शरैर्विध्वंसयामास गिरेशृङ्गम् सहस्रधा गिरेर्विशीर्यमाणस्य तस्य रूपं तदा बभौ सार्कचन्द्रग्रहस्येव परिशीर्यतः तेनाभिपतिता दावं भृशम् शृंगेण निहतालयाते युद्धे खाडवदि दृष्णाजुनयुश्धतमोध्या